अत तैत्र्यकाटक प्रथमप्रश्नप्रारम्भः सञ्ज्ञानम् विज्ञानम् प्रज्ञानम् जानदभिजानते सङ्कल्पमानम् प्रकल्पमानमुपकल्पमानमुपक्लप्तम् क्लृप्तम् श्रेजो वसीज आयत्सम्भूतम् भूतम् चित्रः केतुः प्रभा नाभान् सम्भार ज्योतिष्मागस्तेजः रोचनो रोचमानः शोभनः शोभमानः कल्याणः दर्शा दृष्टा दर्शता आप्यायमानाप्यायमानाप्यायासूनृतेरा आपूर्यमाणा पूर्यमाणा पूरयन्ती पूर्णा पूर्णमासीत् दाता प्रदातानन्दो मोदः प्रमोदः आवेशयन्निवेशयन् सम्वेशमस्सगु शान्तः शान्तः आभवन् प्रभवन् सम्भवन् सम्भूतो भूतः प्रस्तुतम् विष्णुतगुंसविस्तुतम् कल्याणम् विश्वरूपम् शुक्रममृतम् तेजस्वि तेजः समिद्धम् अरुणम् भानुमन्मरीचिमजभितपत्तपस्वत् सविता प्रसविता दीप्तो दीपयम् दीप्यमानः पन्द। रोचनो रोचमानः शुम्भोः शुम्भमानो वामः सुता संवते प्रसुता सूयमानाभिषूयमाणा प्रीतेः प्रपासम्पातृप्तिस्तर्पयन्ती कान्ता कामन्या कामजातायुष्मती कामदुघा अभिशास्तानुमन्तानन्दो मोदः प्रमोदः आसादयन् निषादयन् सगुंसादनः सगुम् सन्नः सन्नः आभोर्विभोः प्रभोः शम्भोर्भुवः पवित्रं पवयष्यन् पोतो मेध्यः यशो यशस्वानायुरमृतः जीवो जीविष्यान् स्वर्गो लोकः सह स्वान् सही जानोजस्वान् सहमानः ययन्नभिजयन् सुद्रविणोद्रविणोदाः आर्द्रपवित्रो हरिकेशो मोदः प्रमोदः अरुणोऽरुणरजाः पुण्डरीको विश्वजिदभिजिते आर्द्रः पिन्वमानोऽन्नवान् रसवानिरावान् सर्वौषधः सम्भरो महस्वान् एजत्काजोगत्काः क्षुल्लकाश्रिपविष्टकाः सनिस्रराः सुशेरवः न चिरासोऽगमिष्णवः इदानीम् तदानी मे तर्हि क्षिप्रमचिरम् आशुर्निमेषः त्वरग्निस्त्वरमाण आशुराशीलाञ्जवः अग्निष्टोम उक्थ्योतिरात्रोऽग्निरात्रिरात्रश्चतो रात्रः अग्निर्ऋतुस्सौर्य ऋतुश्चन्द्रमा ऋतुः प्रजापतिः संवत्सरो महाङ्गः भूरग्निम् च पृथिवीञ्चमाम् च ते गिश्च लोकान् संवत्सरम् च प्रजापतिस्त्वासाधयतो तया देवतया गिरस्वध्रुवासीध भुवोपायुम् चान्तरिक्षम् चमाम् च तेगिश्च लोकान् संवत्सरम् च प्रजापतिस्त्वासादयत् तया देवतजाङ्गिरस्वद्ध्रुवासीद स्वरादित्यम् च दिवम् चमाम् च लो त्रेगिश्च लोकान् संवत्सरम् च प्रजापतिस्त्वासादयत् तया देवतजाङ्गिरस्वद्ध्रुवासीद भोर्भुवस्वश्चन्द्रमसञ्च दिशश्चमाम् च तेदिश्च लोकान् संवत्सरम् च प्रजापतिस्पासादयतु तया देवतयाङ्गिरस्वध्रुवासीद त्वमेव त्वाम् वेच्छयोऽसि सोऽसि त्वमेव त्वामचैषेः चितश्चासि सञ्चितश्चास्यग्ने एतावादिश्चासि भूयादिश्चास्यग्ने यत्ते अग्ने न्यूनम् यदुतेतिरिक्तम् आदित्यास्तदङ्गिरसश्चिन्वन्तु विश्वेते देवाश्चितिमापूरयन्तु चितश्चासि सञ्चितश्चास्यग्ने एतावागिश्चासि भूयागिश्चास्यग्ने मादे अग्ने चयेन मातिचयेनायुरा वृक्षि सर्वेषाम् ज्योतिषाम् ज्योतिर्यगता उदेति तपसो जातमनिभृष्टमोजः तत्रे ज्योतिर्ष्टके तेन मे तप तेन मेज्वल तेन मे दीदिः यावद्देवाः यावदसाति सूर्यः यावदुतापि ब्रह्म संवत्सरोऽसि वरिवत्सरोऽसि यदावत्सरोऽसि विदुवत्सरोसि यद्वत्सरोसि वत्सरोऽसि तस्य ते वसन्तः शिरः ग्रीष्मो दक्षिणः पक्षः वर्षाः हेमन्तो मध्यम् पूर्वपक्षाश्चितयः अपरपक्षाः पुलेशम् अहोरात्राणिष्टकाः वृषभोऽसि स्वर्गो लोकः यस्याम् दिशि महीयसे ततो नो आवह वायुर्भूत्वा सर्वादिश आवाहि सर्वादिशो न विवाहि सर्वादिशो नु अचित्याचिदिमापृणा चिरसि समुद्रयोनिः इन्दुर्दक्षस्येनतावाह हिरण्यपक्षस्य गणोभुरण्यः महान्सधस्थे धृषः निषत्तः नमस्ते अस्तु मामाहि पुंसीः एति प्रेतिपीतिसमित्युदिति दिवम् मे यच्छ अन्तरिक्षम् मे यच्छ पृथिवीम् मे यच्छ अन्तरिक्षम् मे दिवम् मे यच्छ प्रसारय रात्र्या समच रात्र्या प्रसारय अह्ना समच कामम् प्रसारय कामकुम् सम च भूर्भुवः ब्रह्मक्षत्रम् यशो महत् सत्यन्तपो नाम रूपममृतम् चक्षश्रोत्रम् मन आयुः विश्वम् यशो महः समन्तपोहरो भाः दातवेदा यदि वा पावकोऽसि ऐश्वानरो यदि वावै द्युतोऽसि सम्प्रजाभ्यो यजमानाय लोकम् ऊर्जम् पुष्टिम् ददभ्याववृत्स्व राज्ञी विराज्ञीः स्राज्ञीः तपो हरो भाः अग्निरिन्द्रो बृहस्पतिः विश्वे देवा भुवनस्य गोपाः प्रेम सर्वे दशसा सगम् सृजन्तो असवे स्वाहा वसवे स्वाहा विभुवे विवस्वते स्वाहा अभिभुवे स्वाहा अभि दिवाम् स्वाहा बृंहस्पत्याय स्वाहा चाक्षुष्मत्याय स्वाहा ज्योतिष्मत्याय स्वाहा रज्ञे स्वाहा विराज्ञे स्वाहा सम्राज्ञे स्वाहा स्वराज्ञे स्वाहा शोषाय स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा ज्योतिषे स्वाहा सदंसर्पाय स्वाहा कल्याणाय स्वाहा अर्जुनाय स्वाहा विप पवमानाय गायत महीनधारात्यन्धो अर्षति अहिरह जीर्णामतिसर्पति त्वचम् अत्यो न क्रीडन् असरद्वृषा हरिः वया मरिहेतोऽसि मृत्यवेत्त्वा दुष्टम् गृह्णामि एष अपेतशपथन् जि अधान अर्घ्न आवह राजस्पोषकम् सहस्रिणम् एते सहस्रमयुतम् पाशा आर्त्यो मर्त्याजहम् तवे तान् यज्ञस्य मायजा सर्वानव यजामहे भक्षोऽस्य मृतभक्षः तस्य ते मृत्युपीतस्यामृतमतः स्वकाकृतस्य मधुमतः उपहोदस्योपहोदो भक्षयामि मन्द्राभिभोगिः केतुर्यज्ञानाम् वाक् असावेहि अन्धोजाग्रविः प्राण असावेहि बधिर आक्रन्दयितलपान असावेहि अहस्तोऽस्त्वाचक्षुः असावेहि पादाशोमनः असावेहि कवे विप्रचित्ते श्रोत्र असावेहि सुहस्तः सुभासाः शूषो नामाःस्य मृतो मर्त्येषु तथा वेद असावेहि अग्न्यर्मे वाजिश्रितः वाघृदये हृदयं मयि अहममृतेः अमृतम् ब्रह्मणि वाजुर्मेः प्राणे श्रितः प्राणो हृदये हृदयम् मयि अहममृतेः अमृतम् ब्रह्मणि सूर्यो मे चक्षुषिश्रितः चक्षुरहृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रतुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रिता शरीरकम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि ओषधिवनस्पतयो मे लोमसश्रिताः लोमानि हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि इन्द्रो मे बले श्रितः बलकम् हृदये हृदयम्मयि अहममृते अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रुतः मूर्धा हृदये हृदयम्मयि अहममृते अमृतम् ब्रह्मणि ईशानो मे मन्यौ श्रुतः मन्युर्हृदये हृदयम्मयि अहममृते अमृतम् ब्रह्मणि आत्मा म आत्मनिः श्रुतः आत्मा हृदये हृदयम् मयि अहममृतेः अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः प्रजापतिर्देवानसृजत ते पाप्मनासन्दिता अजायन्ता पान्व्यत् यद्यत् तस्माद्विद्युत् तमवृच्छत् यदवृच्छत् तस्माद्दृष्टिः तस्माद्यत्रैते देवते अभिप्राप्नुतः इतहैवास्य तत्र पाप्मानन्दितः दृश्चतश्च सैषावीमा पुंसाग्निहोऽत्र एव सम्पन्ना अथो आहुः सर्वेषु यज्ञक्रतुष्विति होर्षन्नप उपस्पृशेत् विद्युदसि विद्यमे पाप्मानमिति अथ हुत्वोपस्पृशेत् वृष्टिरसि वृश्चमेपाप्मानमिति यक्ष्यमाणो वेष्ट्वा वा युतहैवास्यीते देवते पाप्मानम् यतः पृश्चतश्च अर्त्यगुम्होहारुणिः ब्रह्मचारिणे प्रश्नान् रोच्य प्रतिघाय परेहि प्रक्षन्देयाम् पातिम् पृच्छ वेत्थसाभित्रा वेत्था इति त्वममागत्यपप्रच्छ आचार्यो मा प्राहैषेत् इति स होवाच वेदेति स कस्मिन्प्रतिष्ठित इति परोरजसीति कस्तद्यत्परोरजा इति परो इति होवाच य एष तपति इति स कस्मिन्द्वेष सत्य इति किम् तत्सत्यमिति तप इति कस्मिन्नुतप इति किम् तद्बलमिति प्राण इति मा स्म प्राणमतिपृच्छ होवाच ब्रह्मचारी स होवाच प्रक्षोदय्याम्पातिः यद्वये ब्रह्मचारिम् प्राणमत्यप्रक्ष्यः मूर्धाते व्यवदिष्यत् अहमुत आचार्याच्छ्रेया अम्भविष्यामि यो मासाभित्रे समवादिष्ठेति तस्मात् सा, सा वित्रे न संवदेत स यो हवे सा वित्रम् विदुषा सा वित्रे संवदते सः अस्मिन् श्रियम् दधाति अनुभवा अस्मा असौ तपम् श्रियम् मन्यते अन्वस्मि श्रीस्तपो मन्यते अन्वस्मि तपो बलम् मन्यते प्राणम् मन्यते स सञ्ज्ञानम् विज्ञानम् दर्शा दृष्टेति एष एव तत् अथ यदाः प्रस्तुतम् विष्णुतगुम्सुता संवतीति एष एव तत् एष ह्येवतान्यहानि येष रात्रयः अथ यदाः चित्रः केतुर्दाता प्रदाता सविता प्रसविताभिशास्तानुमन्तेति येष एव तत् एष एष रात्रेः अथ यदाः पवित्रम् पवयिष्यान् सः स्वान् अधीजानरुणो रुणरजाति एष एव तत् एष क्येवतेऽर्धमासाः एष मासाः अथ यदाः अग्निष्टोम उच्चोऽग्निर् ऋतुः प्रजापतिः संवत्सर इति एष एव तत् एषः क्येवते यज्ञक्रतवः एष ऋतवः एष संवत्सरः असयदाः इदानीम् तदानीमिति एष एव तत् एष ह्येव ते मुहूर्तानाम् जनको हवै देहः अहोरात्रैः समजगाम तगुम्भोचः यो वा अस्मान् वेद विजहत्पात्मानमेति सर्वमायुरेति अभिस्वर्गम् लोकम् जयति नास्यामुष्मिंल्लोकेन्न क्षीयत इति विजहद्भवीपाप्मानमेति सर्वमायुरेति अभिस्वर्गम् लोकम् जयति नास्यामुष्मिम् लोकेन्नङ् क्षीयते न एवम् वेद अहीनाहाश्वत्थ्यः सावित्रम् विदाञ्चकार सह हपुंसो हिरण्मजो भूत्वा स्वर्गम् लोकमिजाय आदित्यस्य सायुज्यम् हपुंसो हवैःरण्मजो भूत्वा स्वर्गम् लोकमेति आदित्यस्य सायुध्यम् य एवम् वेद देवभागोहश्रौतर्षः सा वित्रम् विदाञ्चकार पगम् हवागदृश्यमानाभ्युवाच सर्वम् बतगौतमो वेद यः सा वेदेति सहोवाच केशा वागसीति देवानामुत्तमो लोकः गुह्यम् महो बिभ्रदिति एतावति ह गौतमः यज्ञोपवीतम् कृत्वाधो निपपात नमो नम इति सहोवाच मा भैषीर्गौतम जितो वीते लोक इति तस्माद्येके च सावित्रम् विदुह सर्वे जितलोकाः सयो ह वैसा वित्रस्याष्टाक्षरम् अलग्यश्रियाभिषिक्तम् वेद श्रियाहैवाभिषिच्यते घृणिरिति द्वे अक्षरे सूर्य इति त्रीणि आदित्य इति त्रीणि ये तद्वै सा वित्रस्याष्टाक्षरम् अलज्ञश्रियाभिषिक्तम् य एवम् वेद श्रियाहैवाभिषिच्यते तदेतदृचाभ्युक्तम् रुचोक्षरे परमे व्योमम् यस्मिन् देवाधिविश्वे निषेधः यस्तन्न वेद किमृचा करिष्यति ययित्तद्विदुस्त इमे समासत इति न हवा एतस्यर्चान कियुषानुसाम्नार्थोऽस्ति यः सा विजहग् विश्वाभूतानि सम्पश्यत् आर्द्रो हवै पिम्बमानः स्वर्गे लोकयेति विजहङ्विश्वाभूतानि सम्पश्यन्मे य एवम् वेद शोषो हवैवा आर्ष्णेयः आदित्येन समाजगाम तगुम्भोमाच ये हि सा वित्रम् विद्धि अयम् वै स्वर्गो अग्निः पारयिष्णुरमृतात् सम्भूत इति एष वावससा वित्रः य एष तपति ये हिमाम् विद्धि इति हैवैनम् तदुवाच इयम् वावसरघाः तस्य अग्निरेव सा या एताः पोर्वपक्षापरपक्षयोरात्रयः तामधुकृतः यान्यहानि ते मधुभृषाः स यो ह कुर्वन्त्यहास्येता अग्नौ मधु नास्येष्टापोर्तम् धयन्ति अधयो न वेद नः आस्यीता अग्नौ मधु कुर्वन्ति धयन्त्यस्येष्टापोर्तम् यो हवा अहोरात्राणामधेया ना ना निवेद ना नाहोरात्रेष्वार्थिमार्धति संज्ञानम् विज्ञानम् दर् सा दृष्टेति एतावनुपाकौपोर्वपक्षस्याहोरात्राणा अन्नामधेजानि प्रस्तुतम् विष्णुतकम् सुता सन्वतीति एतावनुपाकापपरपक्षस्याहोरात्राणा अन्नामधेजानि नाहोरात्रेष्वार्तिमार्च्छति य एवम् वेद यो तित्रः केतुर्दाता प्रदाता सविता प्रसविताभिशास्तानुमन्तेति एते नु वा का महोत्पानान्नामधेयानि न महोत्प्रेष्वार्तिमार्च्छति यदेवम् वेद यो हवा अर्धमासानाञ्च अंचा मासानाञ्च नामधेयानि वेद नार्धमासेषु पवित्रम् पवगिष्याम् सह स्वाम् सही नार जानरुणो रुणरथा इति एते नु वाक अर्धमासानाञ्च मासानाम् च नामभेदानि नार्धमासे शुनमासेष्वार्तिमार्च्छति च तूनाम् च च नामभेदानि वेद न यज्ञक्रतुशमनर्तृशमसंवत्सर आर्तिमार्च्छति अग्निष्टोम उक्थयोग्निर्तुः प्रजापतिः संवत्सर इति एतेन वाटा यज्ञक्रतोनाञ्चर्तोनाम् च संवत्सरस्य च नामधेदानि न यज्ञक्रतुशमर्तुशमसंवत्सर आर्तिमार्च्छति य एवम् यो ह वै मुहूर्तानाम् न मुहोर्तानाम् मुहूर्तेष्वार्थिमार्च्छति इदानीम् तदानीमिति एते वै मुहोर्तानाम् मुहोर्ताः न मुहोर्तानाम् मुहोर्तेष्वार्थिमार्च्छति य एवम् वेद अथोरथाक्षेत्रज्ञो भो त्वानुप्रविश्यान् नमति एवमेवैतान् क्षेयत्रज्ञो भूत्वानुप्रविश्यान्नम्य स एतेषामेव स लोकता पुंसायुज्यमश्नुते अपपुनर्मृत्युम् एवम् वेद कश्चिद्भवा अस्माल्लोकात् प्रेत्य आत्मानम् वेद अयमः अस्मीति कश्चित्स्वम् लोकम् न प्रति प्रजानाति अग्निमुग्धो हैव धूमता अन्तः स्वम् लोकम् न प्रति प्रजानाति अपधयोहैवैतमग्निगुंसा वित्रम् वेद स एवास्माल्लोकात् प्रेत्य आत्मानम् वेद अयमहमस्मीति स स्वम् लोकम् प्रति प्रजानाति एष उभेवैनम् दत्सा अहोरात्रैर्वा इदगुम् स युग्भिः क्रियते इति रात्राया दीक्षिषत इति रात्राय व्रतमुपा गुरिति तानिहानेवम् विदुषः अमुष्मिल्लोकेशेऽवधिम् धयन्ति हीतगुम् हैव सशेऽधिमनपर इति अथयो हैवेतमग्निगुम् सा मित्रम् तस्य हैवाहोरात्राणि अमुष्मिल्लोकेशेऽवधिम् न अधीतगम् हैव सशे मधिमनपरैति भरद्वाजो हत्रिभिरादुर्भिर्ब्रह्मचर्यमुवास तगम् हजेर्निगस्थविरहंशयानम् इन्द्र उपव्रज्योवाच भरद्वाज यत्ते चतुर्थमादर्द्या किमेन कुर्या इति ब्रह्मचर्यमेवैनेन चरेण विजहोवाच तगम् हत्रीम् गिरिरूपानविज्ञातानि वदलिषजाञ्चकार तेषागम्हैकैकस्मान्मुष्टिनाददे सहोवाच भरद्वाजेत्यामन्त्य वेदा वा एते अन्तावी वेदाः एतद्वा एते स्त्रिभिराजुर्भिरन्ववोचथाः अथत इतरदनलोक्तमेव ये हीमम् विद्धि अयम् वै सर्वविद्येति तस्मै हैतमग्निगुंसापित्रमुवाच तगुंसविधित्वा अमृतो भूत्वा स्वर्गम् लोकमिजाय आदित्यस्य सा युज्यम् अमृतो हैव भूत्वा लोकमेति आदित्यस्य सायुज्यम् य एवम् एषो एव विद्या यावन्तकम् हवै त्रय्या विद्यया लोकम् जयति तावन्तम् लोकम् जयति य एवम् वेद अग्नेर्वा एतानि नामधेजानि अग्नेरेव सायुज्यगम् स लोकतामाप्नोति य एवम् एतानि नामधेजानि वायोरेव सायुज्यगम् स लोकतामाप्नोति य इन्द्रस्य वा एतानि नामधेयानि इन्द्रस्यैव सायुज्यकं स लोकतामाप्नोति एवम् वेद बृहस्पतेर्वा एतानि नामधेयानि बृहस्पतेरेव सायुज्यगम् स लोकतामाप्नोति य एवम् वेद प्रजापतेर्वा एतानि नामधेयानि प्रजापतेरेव सायुज्यगम् स य एवम् वेद ब्रह्मणो वा एतानि नामधेयानि ब्रह्मण एव सायुध्यगुंसलोकतामाप्नोति य एवम् वेद स सवा एषो अग्निरपक्षपुच्छो वायुरेव तस्याग्निर्मुखम् असा वादित्यशिरः स यदेते देवते अन्तरेण तत्सर्वगुंसीव्यति तस्मात् सा वित्रः इति तैत्त्रियकाडक प्रथमप्रश्नः